अथर्ग्वेदे प्रथमाष्टके षष्ठोऽध्यायः ओ इन्दो मदायवावृथेशवसे वृत्रहा नृभीः तमिन्महत्स्वाजिषूते मर्भे एह वामहे सवाजे एषु प्रणोऽविशत् अशीरसेनोसि भूरि परा दधिः असिदभ्रस्यचिद्वृतो यजमानाय शिक्षसि सुन्वते भूरिते वसु यदुदीरत आजयो धृष्णवे दीयते धना युक्ष्वामदच्युता हरेकं हनः कम्बसौ दधोऽस्मामिन्द्रवसौ दधः कृत्वा महानुष्वधम् भीम आमावृथे शवाः श्रियर्श्व उपाकयोर्निशिप्रि हरिकान्दधेहस्तयोर्वज्रमायसम् आपप्रौपार्थिमम् रजो बद्बधेरोचनादिवि न त्वावाङ्गिन्द्र कश्चन न जातो न जनिष्यतेति विश्वम् ववक्षिथ यो अर्योऽमर्तभोजनम् पराददादिदाशुषेः इन्द्रो अस्मभ्यम् शिक्षतु विभजा भूरिते वसुभक्षीयत पराधसः मदे मदेहि नो दतिर्यूथा गवामृजक्रतो सङ्ग्रभाय पुरुषतोभया हस्त्या वसुशिशीहिराय आभर मातयस्व सुते स चाशवसे शूरराधसे विद्माहित्वापुरोवसुमुपकामान् सृज्महेथा नो विता भव एते त इन्द्रजन्तवो विश्वम् पुष्यन्ति वार्यम् अन्तर्हि ख्यो वेदो अदाशुशान्तेषान्नो वेद आभरषु शृणु हे गिरोमघवन्मा तथा इव यदा नः सोदृता आपतः कर आदर्थया आयित्यो जान्विन्द्रते हरी अक्षन्नमे मदन्तह्यवप्रिया अधूषत अस्तोषतस्वभान भो विप्राणमिष्ठया मतीयो जान्विन्द्रते हरीः स्वसन्दृशन्ता वयम् मघवन्वन्दिशीमहे प्रणूलम् पूर्णवन्धुरस्तुतो याः हिवशाम् कनुयोजान्विन्द्रते हरीः सखातम् रथमधितिष्ठाधिगोविदम् यः पात्रम् हारियो जलम् पूर्णमिन्द्रचिकेततियोजान्विन्द्रते हरीः युक्तस्ते अस्तु दक्षिण उत चेन जायामुपप्रिया मन्दानो याह्यन्धसो यो जान्विन्द्रते हरी युनज्मिते ब्रह्मणा केशिना हरि उपप्रयाहिदधिषेगभस्त्योः उत्वा सुतासोरभसा अमन्दिषुः पूषण्वान्वज्रिन्तमुपत्न्या मदः अश्वावरि प्रथमो गोषु गच्छति सुप्रावीरिन्द्रमर्त्यस्तभोतिभिः तवित्रृणक्षिमसु नाभवीयसा सिन्धुवापो यथाभितोऽपि चेतसः आपो न देवीरुपयन्ति होत्रियमवः पश्यन्ति वितकम् यथा रजाः प्राचैर्देवासः प्रणयन्ति दे भजुम्रम् हियम् वरा इव अधिद्वयो रथा उक्थ्या अम्बजो यतसृ चा मिथुनाया स पर्यताः असंयत्तो ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय जा सुन्दते आदङ्गिराः सु प्रथमन्दतिरेवय इद्धाग्नयः संयायेषु सर्वम् पणेः समविन्दन्त भोजनमश्वावन्तम् गोमन्तमापशुन्नराः यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपावेन आजल आ गा आजदुशनाः काव्यः जायमस्य जातममृतम् जा जा जा यजामहे बर्हिरुवायत्समर्त्याय वृज्यतेर् को वा श्लोकमाघोषते दिवि द्रावायत्र वदति कारुरुक्त्या अस्तस्येदिन्द्रो अभिपित्रेषु रण्यति असा वि सोम इन्द्रदेशविष्ठधृष्णवागहि आत्वा पृणक्विन्द्रियम् रजः सूर्यो नरश्मिः इन्द्रमिद्धरी ऋषीणाञ्जस्तुतेरुपजज्ञञ्चमानुषाणाम् आतिष्ठवृत्रहन्रथञ युक्ता ते ब्रह्मणा हरीः अर्वाचीनं सुते मनोग्रावा कृणोतु भग्तुना इयमिन्द्र सुतम् विभज्येष्ठममर्त्यम्मतम् शुक्रस्य त्वाभ्यक्षरन्धारा रतस्य साधने इन्द्रा आयनो न मर्चतोक्थानि च ब्रवीतन सुता अमत्सुरिन्दरो ज्येष्ठन्नमस्यतासहाः न किष्वद्रचितरो हरे यदिन्द्र यच्छसे न किष्वानु मज्मना कदामर्तमराधसम् पदा क्षुम्बमिव स्फुरत् कदा, कदा नः शुश्रवद्गिर इन्द्रोः अङ्गा यश्चिद्धित्वा बहुभ्यः आसुतामाविवाः सति उग्रम् तत्पत्यते शव इन्द्रोः अङ्गा स्वादोरित्थापि या इन्द्रेण स या वरेण पृष्णा मदन्ति शोभसेवस्वीरनुस्वराज्यम् ता अस्य पृशनाजुभः सोमम् श्रीणन्ति पृष्णयः प्रिया इन्द्रस्य जेन गोभ्रम् हिन्वन्ति सायकम् वस्वीननुस्वराज्यम् ता अस्य नमसा सहस्र पर्यन्ति व्रतान्यस्य सश्चिरे पुरोणि पूर्वचित्तदेवस्वे ननुस्वराज्यम् इन्द्रोदधीजोऽस्थभिर्नृत्राण्यप्रतिष्कृतः द्रघाननवतीर्न वा इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् तद्विदच्छर्यणावति अत्राहगोरमन्वतनामत्प्रष्टुरभीच्यम् इत्था चन्द्रमसो गृहे को अर्द्ययुङ्क्ते धुरिगारतस्य शिमीवतो भाविनो दुर्हृणायूर आसन्निषो हृत्स्व सोमयो भून्य एषाम् प्रत्यामृणत्सजीवात् क ईशते तुज्यते कोऽपि भाय कोमम् सते सन्तमिन्द्रम् को, को अन्ति स्तोकायक इहायोतराजेऽधिब्रवर्तन्वे एको जनाया को अग्निमी टे हविषा घृतेन सृताय जाता ऋतुभिर्ध्रुवेभिः कस्मै देवा सते स ते वीतिहोत्र सुदेवः त्वमङ्गप्रशंसिषो देवस्य विष्ठमर्त्यम् न त्वदन्योमघवन्नस्तिमर्जितेन्द्रब्रवीमिदेवचाः माते राधान्ति मात ऊतयोऽसोऽस्मान्कला आचनादभन् विश्वा जन उपमिमीहि मा आनुढवसूनिचर्षणिभ्य प्रजे शुम्भन्ते जनयो न सप्तजो रोदश्रीः मरुतश्चक्रिरे पृथे मदन्ति वीरा विदथे शु ह्रयः त उक्षितासो महिमानमाशददिविरुद्रासो अधिचक्रिरे जलाः अर्चन्तो अर्कम् जनयन्त इन्द्रियमधिश्रियोदधिरे पृश्निमातरः गोमातरोदच्छुभयन्ते अन्दिभिस्तनूषु शुभ्रादधिरे विरुक्मतः बाधन्ते विश्वमभिमाति नमवर्त्मान्येषामनुरीयते शुरम् विजेभ्राजन्ते सुमखासदृष्टिभिः प्रत्यापयन्तो अच्युताचिरोजसा मनोजुगोजन्मरुतो रथेष्वापृषौ राता सः स्पृषतीरयुग्धम् प्रयद्रथेषु पृषतीरयुग्धम् वाजे अद्रिम् मरुतो रंहयन्तः उतारुषस्य विष्यन्ति धाराश्चर्मे बोधभिर्भ्युन्दन्ति भूमा आ वो महन्तु सप्तयोरघुष्यदोरोता नः प्रतिगातबाहुभिः सीदता बर्हिरुभः सदः मारयध्वम् मरुतो मध्वो अन्धसः ते वर्धन्तस्वतवसो महित्वनानानाकस्थुरुरुचक्रिरे सदाः विष्णुर्यद्धावद्वृषणम् मदच्युतम् वयोनसीदन्नधिपर्हिषि प्रिये शूराः इवेद्युयुधयो न जग्भयश्रवस्य वो न पृतना सुजेतिरे भयन्ते विश्वा भुवनामरुद्ध्यो राजान इव त्रेषसन्दृशो नराः त्वष्टा यद्भज्रम् धर्त इन्द्रो नर्यवांसि कर्तवेऽहन्वृत्रन्निरपामौजर्णवम् ऊर्ध्वम् नुनुद्रे वतन्त ओजसादादृहाणञ्चिद्भिः दुर्विपर्वतम् धमन्तो बाणम् मरुतः सुदानगोमदे सोमस्य अरण्यानिचक्रिरे जिम्भन्नुद्रे पतन्तया दिशासिञ्चनुत्सङ्गोतमाय तृष्णदे आगच्छन्ते मम सा चित्रभा नवः कामम् विप्रस्य तर्पयन्तधामभिः यावः शर्मशमानाय सन्ति त्रिधातो निदाशुषे मरुतो वियन्तरयिन्नो धत्तवृषणः सुवीरम् हिक्षये पाथा दिवो यज्ञैर्वा यज्ञवाहसो विप्रस्य वामतीराम् मरुदशृणुताहवम् उत वायस्य वाजिनो नु विप्रमतक्षता सरन्ता गोमतिव्रजे अस्य वीरस्य बर्हिषि सुतः मोदिविष्टिषु मुक्थम् मरश्च अस्य श्रोषन्त्वा भुवो विश्वायश्चर्षणैरभि पूर्वीभिर्हि ददाशिवशरद्भिर्मरुतो वयम् अभोभिश्चर्षणीनः सुभगः स प्रयद्यवो मरुतो अस्तु मर्त्याः यस्य प्रया हंसि वानरस्वेदस्य सत्यशवसः विदा कामस्य वेनतः योऽयम् तत्सत्यशवस आविष्कर्तमहि विद्युतारक्षाः गूहदारुह्यन्तमो विया तविश्वमत्रिणम् ज्योतिष्कर्ताय दुश्मसि प्रत्यक्षसः प्रतमसोऽविरप्शिणो नानता अविथुरा विजीषिणाः दुष्टतमासो नृतमासो अञ्जिभिर्व्याः नद्रेकेति दुस्रा इवस्तृभिः चोतन्ति कोशा उपगोरतेष्वाघृतमुक्षता मधुवर्णमर्चते प्रैषा मज्मेषु मिथुरेवरेजते भूमिर्यामे येषु यद्धयुञ्जते येषु भे ते क्रीडयोधुन योभ्राजदृष्टयः यो स्वयम् अहित्वम् परयन्तधूतयः स हि स्पुरसृत्पृषदश्वो युवाः गणो या ईशास्तविषीभिरावृतः असि सत्यर्णया वादे एद्योऽस्याधियः प्राः पिताथा वृषाः गणः पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्रजिगाति चक्षसा यदेमिन्द्रं संयक्वा आण आशतादिन्नामा यज्ञियानि दधिरे श्रियसे कम्भानुभिः संविमिक्षिरे ते रश्मिभिस्तर्क्भिः सुखादयाः ते वाशीमन्त इष्मिनो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नाः आविद्युन्मद्भिर्मरुदस्वर्गैरथेभिर्यातरुषष्टिमद्भिरश्ववर्णैः आवर्षिष्ठया न इशामयो न वप्तता सुमायाः रुणेभिद्वरमापिषङ्गैः शुभे कञ्यान्दीरथतोर्भिरश्वैः रुक्मो न चित्रस्वधितेवान्पव्या रथस्य जङ्घलन्त भूम श्रियेकङ्गो अधितनुशुभाशीर्मेधावना न कृणवन्त ऊर्धा युष्मभ्यङ्कम् मरुतः सुजातास्तु विद्युम्नासो धनयन्ते अद्रिम् निरुद्राः पर्याव आगुरिमान् धियम् वार्कार्याम् च देवी ब्रह्म कृण्वन्तो गोतमासो अर्कैरूर्ध्वन्नुद्र उत्सधिम् विबध्यै एतत्यन्नयो जनमचेति सस्वर्हजन्मरुतो गोतमो वः पश्यन्निरन्यचक्रालयो दंष्ट्रान्विधावतो बराहून् एणास्याहो मरुतो न भर्त्रे प्रदिष्टो भति वाघतो न वाणी अस्तोभयद्वृथा सा मनुः स्वथाङ्गभस्त्योः आ नो भद्राः क्रतवो यन्तु विश्वतो रब्धासो अपरीता स बुद्धिदाः यथा स न असन्न प्रायुवो रक्षितारो दिवे दिवे देवानाम् भद्रासु मतिरर्जुयताम् देवानाम् रातिरभिनो निवर्तताम् देवानाम् सख्यमुपसेदिमा भयम् देवानः आयुः प्रतिरन्तु जीवसे तान् पूर्वया निमिदा होमहे भयम् भगम् मित्रमदितिण्डक्षमश्रिधम् अर्यवणम् वरुणम् सोममश्विना सरस्वतीनः सुभगामयस्करत् तन्नो वातोमयो भुवा आतुभेषजन्तन्माता पृथिवी तत्पिता द्यौः तद्ग्रावाणः सोमसुतोमयो भुवस्तदश्विना शृणुतन्धिष्ण्यायुमम् तमीशा आनम् जगतस्तस्थुषस्पतिम् धियञ्जिन्ममवसे होमहे भयम् पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धस्वस्तये स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टरे मे स्वस्ति नो बृहस्पतिर्दधातु अग्निजिह्वामनवः सूररक्षसो विश्वे नो देवावसागमन्यः भद्रम् कर्णेऽभिः शृणुयामदेवा भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनोभिर्व्यशेम देवहितम् यदायुः शतमिन्नु शरदो हन्ति देवायत्रा नश्चक्राजरसन्तनूनाम् पुत्रासो यत्र पितरो भवन्ति मानो मध्यारीरिषता दुर्गन्तोः अदितिर्जौरदितिरन्तरिक्षमदितिर्माता स तिर्माता स पुत्रः विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ऋजुनीति नो वरुणो मित्रो नयतु विद्वानन् अर्यमा देवैः स ते वो वसवानास्ते अप्रमो रामहोभिः व्रता रक्षन्ते विश्वाः ते, ते अस्मभ्यम् शर्मयम् सन्नमृतामर्त्येभ्यः बाधमाना अपद्विषाः विनः पथः सुविताय चियन्त्विन्द्रो मरुताः पूषा भगोवन्द्यासः उतरोऽधियोगो अग्राः पूषन् विष्णवेव यावः कर्ता नः स्वस्तिमताः मधुवातारतायते मधुक्षरन्ति सिन्धवः माध्वीर्नः सन्तोषधीः मधुनक्तमुतोषसो मधुमत्पार्थिकं रजाः मधुद्यौरस्तु नः पिता मधुमान्नो वनस्पतिर्मधुमान्नस्तु सूर्याः माग्धीर्गावो भवन्तु नः शं नो मित्रश्चं वरुणः शं नो भवत्पर्यमः शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुनुक्रमः त्वंसो ओमप्रचिकितो मनीषा त्वम् पितरो न इन्दो देवेषु रत्नमभजन्त धीराः त्वम् सोमक्रतुभिः सुक्रतुर्भोस्त्वम् दक्षै सुदक्षो विश्ववेदाः त्वम् वृषा वृषत्तेभिर्महित्वाद्युम्नेभिर्जुम्न्यभवो ऋदक्षाः राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरन्तव सोमधाम सुचिष्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम या ते धामानि दिविया पृथिव्या या पथिवतेष्वशेष्वप्सु तेभिर्नो विश्वैः सुमनाहे एलन् राजन् सोमप्रतिहव्यागृभाय त्वम् सोमासि सत्प्रति त्वम् राजोतवृत्रः त्वम् भद्रो प्रियस्तोत्रो वनस्पतिः त्वम् सोममहे भगन्तं यो न रतायते जीवसे त्वन्नः सोम विश्वतो रक्षाराजन्न खायतः नरिष्ये तावतः सखा सोमयास्ते मयोभुव दाशुषे रार्नो विता इमं यज्ञमिदम् वचो जुदुषाण उपागहि सोम त्वन्नो वृधे भव सोमगीर्भिष्ट्वा वयम् वर्धयामो वचोविदाः सुमृणीको न आविषा द्वयस्फानो अमी वहाव सुवित्पुष्टिवर्धनः सुमित्रः मनो भव सोमरारन्धिनो हृदि गावो मर्य इव स्व ओक्ये यः सोमसख्येतवधारणद्देवमर्त्याः तम् दक्षः स च ते कविः पुरुष्याणो अभिशस्ते सोमरि बाह्यम्भसः सखा सुषेवरेधिनः आप्यायस्व समेतु ते विश्वतः सोमवृष्ट्यम् भवाजस्य सङ्गते आप्यायस्व मदिन्तमसोमविश्वेऽभिरंशुभिः भवानः शुश्रवस्तमः सखावृधे सन्ते पयांसि समुयन्तु वाजास्रमृष्ण्यान्यभिमातिशाः आप्यायमानो अमृताय सोमधिविश्रवांस्युत्तमानिधिष्वा या ते धामानि हविषायनम् विता ते विश्वापरिभूरस्तु यज्ञम् गजस्थानः प्रतरणः सुवीरो वीरः प्रचरा सोम दुर्यान् सोमोऽ धेनुम् सोमो हन्तभाशुम् सोमो वीरम् कर्मण्यन् अषाह्णै्यत्सुपृतना सुपप्रिम् स्वर्षामप्साम् वृजनस्य गोपाम् हरेषुजाम् सुक्षितिम् सुश्रमसञ्जयन्तम् त्वामनुमदेम सोम त्वमिमा ओषधी सोमविश्वास्त्वमपो अजनयस्पङ्गाः त्वमातदन्थोर्वा अन्तरिक्षम् त्वम् देवेन नो मनसा देव सोमरायो भागम् सहसावन्नभि युध्य मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्रतिगित्सागविष्टौ एता उक्त्या उषसः केतुमक्रदपूर्वे अर्धे रजसोभानुमन्यते निष्कृण्मानायुधानेव धृष्णवः प्रतिगावोरुषीर्यन्ति मातराः उदभक्तन्नरुणा भानभो वृथा स्वायुजो अरुषीर्गा अजुक्षदा अक्रन् नुशासो भयुनानि पूर्वथा रुषन्दम्भानुमरुषीरशिश्रयुः अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेनापरापताः इशं वहन्ति सुते सुदानवे विश्वेदह यजमानाय सुम्भते अधिपेषाम् शिवपते नृतो विवापोर्णुते वक्षतु श्रेववबर्जहम् ज्योतिर्विश्वस्मै भुवनाय कृती गाभो नम् व्रजम् यू उषा आहवर्तमाः प्रत्यर्चीर्षदस्यादर्शिवितिष्ठते बाधते कृष्णबभ्रम् स्वरुन्नपेशोऽ विदधेष्वञ्जम् चित्रम् दिवो दुहिता भानुमश्रेत् अत हरिष्णरमसस्पारमस्योषा ऊच्छन्ती वयुना कृणोति श्रिये छन्दो न स्मयतेऽपि भाति सुप्रतीकासौ मनसायाजीगः भास्वती नेत्री सुहृतानान्निवस्तवेदुहिता गोतमेभिः प्रजापतो ध्रुवतो अश्वबुद्ध्यानुशोगो अग्राङ्गुमाशिवाजान् उषस्तमस्याञ्यशसम् सुवीरम् दासप्रवर्गं प्रजिमश्वबुद्ध्यम् सुदंससा श्रवसायाभिधासि वाचप्रसूता सुभगे बृहन्तम् विश्वानि देवे भुवनाभितक्ष्या प्रतीची चक्षु दुर्व्या विभाति विश्वम् जीवञ्च रसे बोधयन्ति पुनः पुनर्जायमाना पुराणी समानम् वर्णमभिशुम्भमाना श्वेव कृत्तुर्विज आमिनामर्तस्य देवी जरयन्त्यायुः योऽन्मते दिवो अन्ताङ्गबोध्यपस्वसारम् सनुतर्युयोति प्रमिलते मनुष्या युगादियोषाः दारस्य चक्षषा विभाति पशून्न चित्रा सुभगाः प्रधाना सिन्धुर्न क्षोध उर्वियाव्यश्वैत अमिरतीरैव्यानिं व्रतानि सूर्यस्य चेति रश्मिर्दृशाना उषस्तच्चित्रमाभरास्मभ्यम् वाजिनीवति येन तोकञ्चतनयम् तथामहे पुषो अद्येह गोमत्यश्वावति विभावरि रेम तस्मे व्युच्छसो नृतावति यूक्ष्वाहि वा आजिनीभ्यश्वा मर्त्या रुणाम् उषः अर्था आ नो विश्वासो भगान्यावहा अश्विना वर्तिरस्मदा गोमद्दस्राहिरण्यवत् अर्वाग्रथम् समनसा नियच्छतम् या वित्था श्लोकमादिवोज्योतिर्जनायचक्रतूः आनपूर्जम् वहतमश्विना युवम् एह देवामयो भुवा दस्राहिरण्यवर्तनी उषर्बुधो वहन्तु सोम पीतये अग्निः सोमाविमं सुमे शृणुतम् मृषणाहवम् प्रतिसूक्तानि हर्यतम् पर्यति तस्मै धत्तम् सुवीर्यम् अग्नेशो माय आहुतिम् यो भान्दाशार्धविश्रुतिम् समप्रजया सुवीर्यम् विश्वमायुर्यवत् अग्नेशो मा चेति तद्वीर्यम् वाञ्यतमुष्णीतम वसम् पडिङ्गाः अवाचिरतम् ऋषयस्य शेषोऽविन्दतम् ज्योतिरेकम् बहुभ्याः युवमेतानि दिव्योचरान्यग्निश्च सोमसक्रतोदरतम् युवम् सिन्धोऽभिषस्तेरवर्द्यारग्ने एषो मा वमुञ्जरङ्ग्रभीतार आन्यन् दिवो मा आदरिष्वाजभारामत्स्नादन्यम् परिश्ये नो अद्रेः अग्ने एषो मा ब्रह्मणा वा प्रवृधारोरु यज्ञाय चक्रथुरुलोकम् अग्नीषोमा हविषः प्रस्थितस्य भीतम् हर्यतम् मृषणा जुषेथा सुशर्माणास्ववसाहिभूतमथा धत्त यजमाना यशंयोः यो अग्निशो मा हविषा सपर्याद्दे भद्री मनसा यो घृतेन तस्य रतम् रक्षतम् हसो विषेदनायमहि अग्नीशो मा सवेदसासहूतीवनतङ्गिराः सन्देवत्रा बभूवधुः अग्नीशो मा वनेन वाञ्यो वाङ्कृतेन दाशती तस्मै दीदयतम् अग्ने एषो आप्यायंता मुस्रियाह न आप्यायन्तामुश्रियाहव्यसूदाः अस्ते बलानि भगवत्सु धत्तम् कृणुतन्नो अध्वरम् इमंस्तो ममर्हते स्तोमर्हते जातरेतसे रथमिव संवहे मामनीषया भद्राहिनः प्रवदितस्य संसद्यज्ञे सख्ये मारिषा मा यस्मै त्वमायजसे ससाधन्त्यर्वाक्षेति दधते सुवीर्यम् स तूता वनैनमुष्णोत्यम् हतिरग्ने सक्खे मारिषामा वयन्तव सके मत्वा समिधम् साधयाधि यस्ते देवाहविरथन्त्याहुतम् त्वमाहदित्या आवहतान् स्यू उष्मस्यग्ने सख्ये मारिषामा वयन्तव म् कृणवामाहवींषिते चितयन्तः पर्वणा पर्वणा वयम् जीवातवे प्रतरम् साधयाति योग्ने सख्ये मारिषामा वयन्तव दिशाम् गोपा अस्य चरन्ति जन्तवोद्विपत्ययधुतचतुष्पदत्तुभिः चित्रः प्रकेत उषसो महाग्ने सख्ये मारिषामा वयन्तवद्भर्युरुतहोरासि पूर्व्यः प्रशास्ता होराः त्र्याश्चिदन्थो अतिदेव पश्यस्यग्ने एष्ये मारिषामा भयन्तव पूर्वो देवा भवतु सुन्दतो रथोऽस्माकम् शंसो अभ्यस्तु दूढ्याः तदाजा आनीतोदपुष्यतापचोऽग्ने एषख्ये मारिषामाभयन्तव वधैर्दुःशंसा अपदूढ्यो जहि दूरे वाये अन्तिवाकेचिदत्रिणाः अथाः यज्ञाय गृणते सुगङ्कृध्यग्नेः सख्ये मारिषामा भजन्तवुक्था रुषारोहितारथे वातजूता वृषभस्येव तेरवाः आदिम् वसि वनियो धूमके तुलाग्नेः सख्ये मारिषामा भजन्तव अर्हः स्वनादुतबिभ्युः पतत्त्रिणो द्रप्सायत्ते सुगन्तत्ते तावकेभ्यो रथेभ्योऽग्नेः सख्ये मारिष्यामा वयन्तव अयम् मित्रस्य वरुणस्य धाय सेव याताम् मरुताम् हेळो अद्भुतः मृडासु नो भूत्वे शाम् मनः पुनरग्नेः सख्ये मारि श्यामा वयन्तव देवो देवानामसि मित्रो अद्भुतोपसुर्वसो नामसि चारुरध्वरे शर्मन्स्याम तव सप्रथस्तमेऽग्ने सख्ये मारिष्यामा वयन्तव तत्ते भद्रञ यत्समिद्धस्वे तमे सोमाहुतो जरसे वृणयत्तमः दधासिरत् मन्द्रविणम् च दाशुषे ज्ञे सख्ये मारिषामा वयन्तव यस्मैस्तम् शुद्रविणो ददाशो यम्भद्रे नजवसा चोदयासि प्रजापताराधसाते स्याम स त्वमग्नेऽसौ भगत्वस्य विद्वानस्माकमायुः प्रतिदेहदे एव तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उदव्यौ इति प्रथमाष्टके षष्ठोऽध्यायः